नारायणीय दशक नईट मीटर् श्रद्धरा तानि सर्वाणी कर्माण्यफलपरतया वर्णिता समनु ते्यताे वही समुचर नैषकर्म्यमीश निशिद्धे कुहचिदपि मनःकर्मवाचाम् प्रवृत्तिर्दुर्वर्जन् चेदवाप्तन् तदपि खलु भवत्यर्पये चित्प्रकाशे यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिं हृद्यां सत्त्वैकरूपाम् दृशति हृदि मृदि क्वापि वा भावयित्वा पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैः नित्यं वर्यां सपर्यां विदध दयि विभो त्वत्प्रसादं भजेयम् श्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतान्दे दयार्हास्त्वत्पादासन्नयादान्द्विजगुलजनुषो हन्त शोचाम्यशान्तान् वृत्त्यर्थन्दे यजन्दो बहु कथितमपि त्वामना दृप्ता विद्याज्य कि मुन विदेद्मा कृधा पापोंयराभिजपदी जूखितुश्चर निर्लज्ज सचा बहुत यानी मे विघ्ता ब्रादामे वंध्यशीलो वन्ध्यशीलो भजति किल सदा विष्णुमिद्धम्बुधांस्ते निन्द्युच्चैर्हसन्दित्वयि निहितमदीं स्तादृश्यं मा क्रुधा माम् श्वेदचायङ्कृते मुनिवरवपुषं प्रीणयन्ते तपोभिस्त्रेदायां शुक्स्रुवाद्यङ्गितमरुणतनुं यज्ञरूपं यजन्ते सेवन्ते तन्द्रमार्गैर्विलसदरिगदन्द्वापरे श्यामलाङ्गम् नीलं सङ्कीर्तनाद्यैरिहकलिसमये मानुषास्त्वां भजन्ते सोऽयं कालेयकालो जयदि मुररिपो यत्र सङ्कीर्तनाद्यैर्निर्यत्नैरेव मार्गैरखिलधनचिरात् त्वत्प्रसादं भजन्ते जादास्त्रेदा कृदादा वपिः किल कलौ कामयन्ते दैवात्तत्रैव जादान्विषयविषरः सैर्मा विभो वञ्चयास्मान् भक्तास्तावत् कलौ स्योर्द्रमिळभुवि ततो भूरिशस्तत्र चोच्चैः कावेरीम् ताम्रपर्णीमनुकिलकृतमालाम् प्रतीचीम् हा मामप्येदन्तर्भवमपि च विभो किञ्चिदञ्जद्रः सन्त्वय्या शवाशैर्निबध्यभ्रमय न भगवन् पूरय त्वन्यषेवाम् पृष्ट्वा धर्मद्रुहन्तम् कलिमपकरुणम् प्राङ्महीक्षित्परीक्षिद्धन्तुम् व्याकृष्टा। खड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् त्वत्सेवाद्यासु सिद्ध्ये दशदिह न चैश त्वत्परे चैष भीरुर्यत्तु प्रागेव रोगादिभिरपहरदे तत्र गङ्गा गीता जगायत्र्यपि च तुलसिका गोपिका चन्दनं तत्सालग्रामाभिपूजा परपुरुषतद्धैकादशी नाम वर्णाः एतान्यष्टाप्य यत्नान्ययिकलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानी भि ददुर्श्रय्यस्तिषु मां सज्जये धाः देवर्षीणाम् पितॄणामपि न पुनर्णीकिङ्गरो वासभूमन् योऽसौ सर्वात्मना त्वां शरणमुपगतः तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पापोद्धतापान् पवनपुरपदे रुन्धिभक्तिं प्रणीयाः सर्वत्र गोविन्दनामसङ्गकीर्तनम् गोविन्द गोविन्द